गणानान्त्वा गणपतिग्रे हवामहे प्रियाणा हन्त्वा प्रियपतिग्रे हवामहे निधीनान्त्वा निधिपतिग्रहवामहे वसो ममा गणान्त्वा त्वा गणानाम् गणानान्त्वा गणपतिम् गणपतिम् त्वा गणानाम् गणानान्त्वा गणपतिम् त्वागणपतिम् गणपतिम् त्वा गणपतिम् हवामहे हवामहे गणपतिम् त्वा गणपतिम् हवामहे गणपतिम् हवामहे हवामहे गणपतिम् गणपतिम् हवामहे प्रियाणाम् प्रियाणाग्रे हवामहे गणपतिम् गणपतिम् हवामहे प्रियाणाम् गणपतिमिति गणपतिम् हवामहे प्रियाणाम् प्रियाणाग् हवामहे हवामहे प्रियाणाम् प्रियपतिम् प्रियपतिम् प्रियाणाग् हवामहे हवामहे प्रियाणाम् प्रियपतिम् प्रियाणाम् प्रियपतिम् प्रियपतिम् प्रियाणाम् प्रियाणाम् प्रियपतिम् निधीनान्निधीनाम् प्रियपतिम् प्रियाणाम् प्रियाणाम् प्रियपतिम् प्रियपतिम् निधीनान् निधीनाम् प्रियपतिम् प्रियपतिम् निधीनान् निधिपतिन् निधिपतिम् निधीनाम् प्रियपतिम् प्रियपतिम् निधीनान् निधिपतिम् प्रियपतिमिति प्रियापतिम् प्रिया नि निधीनान्निधिपतिम् नि प्रिया प्रिया निधिपतिम् निधीनान् नि निधीनान्निधिपती नि नि हवामहे हवामहे निधिपतिम् निधीनान् निधीनान् निधिपदीं हवामहे निधिनामिदी निधिनाम् निधिपदीयु हवामहे हवामहे निधिपतिं निधिपदीयु हवामहे वसो वसो हवामहे निधिपतिं निधिपतीयु हवामहे वसो निधिपतिमिति निधिपतिम् हवामहे वसो वसो हवामहे हवामहे वसो मम मम वसो हवामहे हवामहे वसो ममा वसो मम मम वसो वसो ममाह महामा मम वसो वसो ममाहम वसो इति वसो